अष्टाधिकशततमोऽध्यायः वैशम्पायन उवाच धृतराष्ट्रे च पाण्डौ च विदुरे च महात्मनि तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् कुरवोथक् कुरुक्षेत्रम् त्रयमेतदवर्धत ऊर्ध्वसस्या भवद्भूमिः सस्यानि रसवन्ति च यथर्तु वर्षी बहुपुष्पफलाद्रुमाः वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः गन्धवन्ति च माल्यानि रसवन्ति फलानि च वणिग्भिश्चान्वकीर्यन्त नगराण्यथ शिल्पिभिः शूराश्च कृतविद्याश्च सन्तश्च सुखिनो भवन् नाभवन्तस्य वः केचिन्नाधर्मरुचयोजनाः प्रदेशेष्वपि राष्ट्राणाम् कृतम् युगमवर्तत धर्मक्रियायज्ञशीलाः सत्यव्रतपरायणाः अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा मानक्रोधविहीनाश्च नरालोभविवर्जिताः अन्योन्यमभ्यनन्दन्त धर्मोत्तरमवर्तत मान क्रोधविहीनाश्च नरालोभविवर्जिताः अन्योन्यमभ्यनन्दन्त धर्मोत्तरमवर्तत तन्महो दधिवत्पूर्णम् नगरम् वैव्यरोचत द्वारतोरण निर्यूहैर्युक्तमभ्रचयोपमैः प्रासादशतसम्बाधम् महेन्द्र पुरसन्निभम् नदीषु वनखण्डेषु वापीपल्वलसानुषु काननेषु चरम्येषु विजह्रुर्मुदिता जनाः उत्तरैः कुरुभिः सार्धम् दक्षिणाः विस्पर्धमचनमे वर्षिचारण ना भवत् कशिन्नाववास्त्रिय तस्पदे रम्ये कुर्बुकृते कूपारा सभा वाप्यो ब्राह्मण वसथास्तथा बहुवुस्वर्धि युताे सदोत्सवा भीषेण धर्म तो राज पीरक्षि बभूव रमणीयश्च्यूपता भीष्मेण विहितम् राष्ट्रे धर्मचक्रमवर्तत क्रियमाणेषु कृत्येषु कुमाराणाम् महात्मनाम् पौरजानपदाः सर्वे बभूवः सततोत्सवाः गृहेषु कुरु मुख्यानाम् पौराणाञ्चनराधिप दीयताम् भुज्यताञ्चेति वाचो श्रूयन्त सर्वशः धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः जन्मप्रभृति भीष्मेण पुत्रवत् संस्कारै संस्कृतास्तेऽस्तु व्रताध्ययन संयुताः श्रमव्यायाम कुशलाः समपद्यन्त यौवनम् धनुर्वेदेष्व पृष्ठे च गदा युद्धेऽसि चर्मणि तथैव कच नीतिशास्त्रेषु पारगाः इतिहासपुराणेषु नानाशिक्षासु बोधिताः वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्चयाः पाण्डुर्धनुषि अन्येभ्यो बलवानासीत् धृतराष्ट्रो महीपतिः त्रिषु लोकेषु न त्वासीत् कश्चित् विदुरसम्मितः धर्म नित्यस्तथा राजन् धर्मे च परमम् गतः प्रणष्टम् शन्तनोर्वंशम् समीक्ष्य पुनरुद्धतम् ततो निर्वचनम् लोके सर्वराष्ट्रेष्ववर्तत वीरसूनाम् काशिसुते देशानाम् कुरुजाङ्गलम् सर्वधर्मविदाम् भीष्मः पुराणाम् गजसाह्वयम् धृतराष्ट्रस्त्व चक्षुष्वात् न प्रत्यपद्यत पारशवत्वात् विदुरो राजा पाण्डुर्बभूवः कदाचिदथकाङ्गेयः सर्वनीतिमताम् वरः विदुरम् धर्मतत्त्वज्ञम् वाक्यमाह यथोचितम् इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि पाण्डुराज्याभिषेकेष्टाधिकशतमोऽध्यायः